ब्राह्मणस्य प्रशान्तस्या हविर्ध्वांशैः प्रलुप्यते शार्दूलस्य गुहाम् शून्याम् नीचः अरक्षितारं राजानं तमाहुः सर्वलोकस्य समग्रम् पापचारिणम् ब्राह्मणस्ये हृते चोरैर्धर्मार्थै च विलोपिते रोरूयमाणे च मयि प्रियतामस्त्रधारणम् वैशम्पायन उवाच रोरूयमाणस्याभ्यासे भृशम् विप्रस्य पाण्डवः तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः श्रुत्वैव च महाबाहुः आयुधानि च यत्रासन् पाण्डवानाम् महात्मनाम् कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः सम्प्रवेशाय चाशक्तो गमनाय च पाण्डवः